नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् इदानीम् अत्र अद्य विषयः अस्ति मा हिंसिः इति तत्र अस्माकं जीवने मनुष्यजीवने जीवने, वयं कुर्मः पुनः वदतु विषय मा हिंसिः मा हिंसिः इत्युक्ते हिंसा न करणीया मा हिंसिः इति लृङ्ग्लकारस्य नाम लुङ्लकारस्य प्रयोगः अहिंसिः इति अस्ति मा मा इति शब्दस्य योगे रागमस्य लोपः भवति अतः मा हिंसि इत्युक्ते अत्र मनुष्यजीवने हरि प्रत्येकस्मिन् क्षेत्रे नियन्त्रणस्य आवश्यकता वर्तते यत्किमपि वयं यदा तत्र भोज्यपदार्थः बो, अस्ति खाद्यपदार्थः अस्ति यत्किमपि अहं पश्यामि तस्य खादनं करोमि इति एवं भवति चेत् तदानीं मनुष्य मनुष्यस्य शरीरं तत्र यन्त्रं भवति यन्त्रं भवति यन्त्ररूपेण कार्यं करोति किञ्चित् कालानन्तरं तत्र तत्रा सम्यक् न करोति तदानीं मृत्युः शरीरस्य मृत्युः जायते अतः यत्र खादने अपि नियन्त्रणस्य आवश्यकता अस्ति खादने तु नियन्त्रणस्य आवश्यकता अस्ति इति वयं स्वयं ज्ञातुं शक्नुमः इत्युक्ते यथा अस्माकं मनसः इच्छा वर्तते तथा वयं खादामः चेत् शरीर शरीरे शरीरं रोगग्रस्तं भवति शरीरे रोगाः आगच्छन्ति इति वयं ज्ञातुं शक्नुमः अतः एव खाद्यपदार्थे नियन्त्रणस्य आवश्यकता अस्ति यत्किमपि वयं मुखे स्थापयामः तत्र नियन्त्रणम् अपेक्षितमस्ति नियन्त्रणं लोके अस्माकम् इदानीम् अद्यतन लोके मनुष्यस्य जीवने नियन्त्रणं नास्ति खाद्यविषये भोजनविषये नियन्त्रणं नास्ति इति वयं स्पष्टतया ज्ञातुं शक्नुमः यतोहि <laughs> तत्र यत्किमपि अस्ति अस्माकं पुरतः <laughs> तस्य खादनार्थं म्यूट् मध्ये स्थापयामि तत् तस्य खादनार्थं ते तत्र उत्सुकता भवति तर्हि इदानीं तदानीं वयं किं कुर्मः चिन्ता मास्तु इदानीम् अहं खादामि तदनन्तरम् अहं किमपि व्यायामं करोमि इति किमपि एवं रीत्या जनाः चिन्तयन्ति इत्युक्ते तस्मिन् क्षणे यदा पुरतः किमपि अस्ति तस्मिन् क्षणे नियन्त्रणं नास्ति नियन्त्रणं नास्ति अन्यः कोपि खादति इति दृष्ट्वा कुत्रचित् वयं गच्छामः अन्यः कोऽपि खादति इति दृष्ट्वा अस्माकमपि मनः तत्र गच्छति ओ इदानीमेकवारम् अहं खादामि अनन्तरं न खादामि इति एवं रीत्या अस्माकं चिन्तनं सामान्यतया भवति तर्हि तादृशचिन्तने दोषः अस्ति तत्र नियन्त्रणस्य आवश्यकता अस्ति तदानीं तस्मिन् क्षणे अस्माकं मनः दृढं भवति चेत् तदानीं तादृशपदार्थं वयं न खादामः परन्तु तत्र अस्माकं व्यवहारः कथमस्ति इति चेत् य यत्किमपि अस्माकं पुरतः अस्ति खाद्यपदार्थः यदस्माकं इच्छानुगुणम् अस्ति तदानीं वयं किं कुर्मः ओ इदानीम् अत्र अद्य अहं खादामि श्वः प्रभृति अहं तत्र नियन्त्रणं करोमि इति एवं रीत्या न भवति इत्युक्ते नियन्त्रणम् इत्युक्ते इदानीम् अस्मिन् क्षणे नियन्त्रणस्य आवश्यकता अस्ति इदानीम् अहं यदस्ति तद् न खादामि तद् मम कृते सम्यक् नास्ति तद् अहं न खादामि ऐ विल् बि वेरि स्ट्रिक्ट् फ्रम् नौ फ्रम् दिस् मिनिट् इति तत्र डिसिप्लिन् अनुशासनस्य आवश्यकता अस्ति इदानीमेव अहम् एवं करोमि इति सर्वदा एवं चिन्तनं भवति ओ अद्य अहं खादामि श्वः प्रभृति अहं करोमि इति एवं रीत्या चिन्तनम् अस्ति चेत् कदापि तत्र नियन्त्रणं न भवति जीवने नियन्त्रणं कदा भवितुमर्हति इदानीम् अद्य अद्य प्रभृति अहं नियन्त्रणं करोमि इति तत्र मनसि दृढसङ्कल्पः भवे, तदानीमेव नियन्त्रणं भवति इत्युक्ते मनुष्यः कतमस्ति, अस्ति सः सर्वदा मनुष्यः सर्वदा खादितुम् इच्छति इत्युक्ते तत्र बुभुक्षा अस्ति वा न वा इति न चिन्तयति किमपि पुरतः अस्ति चेत् झटिति तस्य उपरि तत्र गत्वा सः झटिति खादति इति एवं रीत्या मनुष्यस्वभावः अस्ति पशोः स्व स्वभावः तथा नास्ति पशुः यदा बुभुक्षा बुभुक्षा अस्ति तदानीं सः खादति बुभुक्षा नास्ति चेत् सः किमपि स्थापयतु तदापि न खादति परन्तु मनुष्यः तथा नास्ति यत्किमपि पुरतः अस्ति बुभुक्षा अस्ति वा तत्र यः यः यद् पदा यः पदार्थः अस्ति सः पदार्थः मम तत् तस्मिन् पदार्थे मम इच्छा वर्तते इति चेत् तत्र बुभुक्षायाः विषयः एव नास्ति तदानीं झटिति उपरि गत्वा तत्र तत् स्वीकृत्य सः झटिति खादति परन्तु तत्र पशुः तु तथा नास्ति खलु पशुः तत्र, तत्र प्राकृतिकः स्वभावः अस्ति प्रकृतेः नियमानुगुणं पशुः व्यवहरति प्रकृतिनियम नियमस्य नियमविरुद्धं पशुः कदापि कार्यं न करोति परन्तु मनुष्यः तथा नास्ति अस्माकं मनः बहु शक्तिशाली अस्ति तत्र मनसि तत्र झटिति लोभः लोभः आयाति लोभः आयाति लोभः आयाति आया इति कृत्वा वयं किं कुर्मः इति चेत् स्वादिष्टः पदार्थः अस्ति चेत् वयम् अधिकं खादामः यावत् आवश्यकं तस्मात् अपि अधिकं वयं खादामः पशुः तथा न व्यवहरति एवं यदा वयं व्यवहारं कुर्मः स्वादिष्टपदार्थस्य अधिक अधिक अधिकतया अधिकमात्रा मात्र, मात्रारूपेण खादामः चेत् तदानीं समस्या अस्माकं शरीरं सम्यक् न करोति शरीरे रोगाः आगच्छन्ति अतः एव नियन्त्रणस्य आवश्यकता अस्ति यः पुरुषः नियन्त्रण नियन्त्रणस्य विषये अधिकं ध्यानं ददाति तं पुरुषं वयं संयमी इति वदामः नियन्त्रणस्य नाम नामकरणमस्ति संयमः यस्मिन् पुरुषे संयमः वर्तते सः पुरुषः संयमी तर्हि यः पुरुषः संयमी अस्ति सः बृहत् कार्यं कर्तुं शक्नोति बृहत् कार्यं कर्तुं शक्नोति यदि संयमे संयमी अस्ति तर्हि बृहत् कर्तुं शक्नोति यः पुरुषः संयमी नास्ति तदानीं बृहत् कर्तुं तस्मिन् तस्मिन् क्षेत्रे बृहत् कर्तुं तत्र क्लेशः भवति तर्हि इदानीं यदि तत्र पुरुषः संयमी नास्ति तत्र भोजनस्य विषये संयमः नास्ति नियन्त्रणं नास्ति तदानीं किं भवति इति चेत् अन्य कोऽपि पुरुषः तत्र किं करोति इति चेत् तं पुरुषं प्रति अधिकं भोजनं ददाति अपि च यत्किमपि सत्य स्वकार्यमस्ति तत् करोति अथवा कोऽपि तत्र मद्यपानम् अधिकं करोति इति चिन्तयतु तस्मिन् संयमः नास्ति तस्मिन् पुरुषे यः अधिकं मद्यपानं करोति तस्मिन् संयमः नास्ति तर्हि अन्यः पुरुषः यदि यदि अयं पुरुषः य यस्मिन् संयमः नास्ति यदि सः तत्र कुत्रचित् कार्यं करोति तत्र तत्र क कश्चन अधिकारी अस्ति तत्र तर्हि अन्यः पुरुषः तस्मात् किमपि कार्यं कर्तुम् इच्छति चेत् तद् तदानीं करोति इति चेत् तं पुरुषं नीत्वा तस्य कृते अधिकं मद्यपानं ददाति तदानीम् अधिकं मद्यपानं सः पुरुषः अथवा सः चेत् तदानीं तत्र मद्यपाने सः यत्किमपि कर्तुं शक्नोति यद् वस्तुतः न करणीयं तदपि सः करोति एतादृशं किम किमर्थं भवति इति चेत् जीवने संयमः नास्ति अतः जीवनस्य प्रत्येकस्मिन् क्षेत्रे नियन्त्रणस्य आवश्यकता अस्ति नियन्त्रणं अत्र भोजनविषये नियन्त्रणं नास्ति चेत् तर्हि पुरुषः रोगग्रस्तः भवति ओबिसिटि आयाति अधिकं खादति भोजने अपि संयमः भोजने अपि संयमः आवश्यकः अस्ति व्यवहारे अपि नियन्त्रणस्य आवश्यकता अस्ति अस्मिन् जगति मनुष्यः व्यवहरति अन्येन पुरुषेण सह अन वस्तुना सह सह व्यवहरती जगती यहाँ पुषा शक्तिशाली अस्क य अस्थरी भ्रष्टाचार कौती क्रोधी अस्त सह अषंत अस्त तरह अत्याचार कौती तु वयं अस्मिन् जगति वयं द्रष्टुं शक्नुमः इत्युक्ते देशदेशः अपि तथा एव यः देशः शक्तिशाली शक्तिशाली वर्तते सः देशः अन्यस्य देशस्य उपरि अत्याचारं करोति इति तु सर्वत्र अस्ति तर्हि इदानीं तु जनाः मांसपदार्थं खादति मांसपदार्थं पशोः हननं कृत्वा मांसपदार्थं खादति तर्हि बहु बहुकालतः ते किं कुर्वन्ति इति चेत् यत्किमपि पशु अथवा यः पशु अस्ति पशुः अस्ति तस्य हननं कृत्वा खादनं करोति एवं कृत्वा, कृत्वा कृत्वा कृत्वा तत्र लोभः अधिकः वर्धते तर्हि लोभस्य कारण कारणे एव इदानीं जगति बहवः पशवः मृताः इदानीं तत्र इत्युक्ते रैनासरस् इति आसीत् कश्चन प्राणी इदानीन्तनकाले तादृशप्राणी विरलतया एव दृश्यते यतोहि मनुष्याः किं कुर्वन्ति इति चेत् तस्यापि मांसरूपेण भक्षणं कुर्वन्ति इति एवं रीत्या एवं कृत्वा कृत्वा नियन्त्रणं नास्ति इति कृत्वा मनुष्यस्य व्यवहारे कठोरता कठोरता आयाति अतः तादृशकालः अपि आगन्तुं शक्यते यदा एकः मनुष्यः अन्यस्य मनुष्यस्य हननं कृत्वा खादनमपि कर्तुं शक्नोति यदि नियन्त्रणं नास्ति अतः जीवने व्यवहारे कठोरनियन्त्रणस्य आवश्यकता अस्ति यः पुरुषः बुद्धिमान् वर्तते सः तु अवगन्तुं शक्नोति नियन्त्रणं नास्ति चेत् जीवनं कठिनं भवति इति सः तु अवगन्तुं शक्नोति यः पुरुषः योगनिष्ठजीवने बहुकालात् व्यस्तः अस्ति सः तु सरलरीत्या अवगन्तुं शक्नोति यत् नियन्त्रणं नास्ति चेत् बहु इति एक एकवारमपि नियन्त्रणस्य भङ्गः भवति चेत् सः सोढुं धुम, सोढुं न शक्नोति इत्युक्ते वयं पश्यामः चेत् पुरान पुरातनकाले मनुष्याः शाकाहारिणः एव सन्ति आसन् प्राचीनकाले शाका शाकाहारिणः एव आसन् शनैः शनैः ते किं कृतवन्तः इति चेत् ते पक्षिणं नीत्वा खादितवन्तः तदनन्तरं पशु पशुपक्षी पशुपक्षि पक्षिणां नीत्वा खादितवत्यः इति कृत्वा कृत्वा तेषां वर्धनं जातं तर्हि यत्किमपि अथवा यत्किमपि लभ्यते अथवा यं कमपि पशुं स्वीकृत्य ते खादनम् आरब्धवन्तः इति एवं कृत्वा कृत्वा कृत्वा अग्रे वयं गच्छामः चेत् कदाचित् एवमपि भवति मनुष्याः ये मनुष्याः सन्ति अन्यान् मनुष्यान् हनिष्यन्ति इत्यपि भवि भवितुं शक्नोति यदा नियन्त्रणं नास्ति तो इत्युक्ते तत्र नियन्त्रणं नास्ति चेत् बहु भवति खलु तर्हि अतः मनुष्यः लोबी अस्ति क्रोधी अस्ति शक्तिशाली मनुष्यः अस्ति तर्हि तादृशमनुष्ये यदि नियन्त्रणं नास्ति तदानीं हानिकारकं भवति सर्वेषां हानिकारकं भवति अतः एव पुरातनकाले ये ऋषयः आसन् ते उक्तवन्तः किम् उक्तवन्तः हिंसा न करणीया इति उक्तवन्तः मा हिंसीः हिंसा न करणीया इति ते उक्तवन्तः तर्हि हिंसा इत्युक्ते किम् इत्युक्ते परपीडनं परपीडनं हिंसा मनोवाक्यायैः सर्वभूतानाम् अपीडनम् अपीडनम् अहिंसा अहिंसा नाम का इति चेत् मनोवाक्कायैः मनसा वचसा अपि च कायेन सर्वभूतानाम् अपीडनं सर्वभूतानाम् अपीडनम् एव अहिंसा हिंसा इत्युक्ते अस्य विपरीतं मनोवाक्कायैः सर्वभूतानां पीडनं हिंसा इति भवति तर्हि मा हिंसीः इत्युक्ते हिंसा न करणीया अन्यं प्रति यदा कष्टं दद्मः तदानीं हिंसा उद्देशमूलकम् उद्देशमूलकम् इत्युक्ते अस्माकं मनसि विवक्षा अस्ति अन्यस्य पीडनं भवतु इति विवक्षा यदा मनसि अस्ति तद् यदा वयं व्यवहरामः तदानीं हिंसा इति वदामः यदि वयं मार्गे गच्छामः तदानीम् अस्माकं पादस्य अधोभागे कश्चन कीटः अस्ति तस्य अज्ञात्वा तस्य हननं जायते यदा वयं मार्गे गच्छामः तदानीं तत्तु हिंसा इति न वदामः तद् हिंसा नास्ति यतोहि अस्माकं विवक्षा नास्ति अस्माकम् उद्देशः नास्ति तत्र कीटस्य हननम् इति उद्देशः नास्ति परन्तु मार्गे गच्छामः कश्चन पक्षी अस्ति तं गृहीत्वा तत्र पादस्य अधोभागे स्थापयित्वा तस्य हननं कुर्मः तदानीं ता तत्र तु हिंसा यतोहि अत्र अस्माकम् उद्देशः परपीडनं परपीडनमेव उद्देशः इति कृत्वा तत्र हिंसा एव भवति तर्हि इदानीं जनाः पशुहत्यां कुर्वन्ति पशु हत्यां कुर्वन्ति इदानीं तत्र पुरातनकाले जनाः किम् उक्तवन्तः इति चेत् ये पशवः सन्ति तेषां हननं भोजनार्थं तत्तु उद्देशमूलकं नास्ति उद्देशमूलकं नास्ति तत्तु मम यथा अन्नं खादामि तथैव तत्र पक् पक्षि अथवा पशुः पशुः यः वर्तते तं गृहीत्वा अहं खादामि चेत् तत्र हिंसा नास्ति इति ते उक्तवन्तः तादृश ताद्रिष्ट, तादृशदृष्टिकोणः आसीत् परन्तु तादृशदृष्टिकोणः समीचीनः वा इति वयम् आलोचया चेत् वयं ज्ञातुं शक्नुमः तादृशदृष्टिकोणः सम्यक् नास्ति यदि खादनार्थं खादनमेव मम उद्देश्यं वर्तते इति कृत्वा अहं प पशुः करोमि तत्र हिंसा नास्ति इति वक्तुं शक्यते मनुष्यजीवने मनुष्यस्य जीवनार्थं या किं मनुष्यस्य इत्युक्ते अहं लोके जीवितुं शक्नोमि मम अधिकारः वर्तते यथा मनुष्याणां लोके जीवितुम् अधिकारः वर्तते तथैव पशुपक्षीणामपि अधिकारः वर्तते इदं जगत् परमपुरुषेण निर्मितं वर्तते इदं जगत् केवलं मनुष्याणां कृते अस्ति वा इति चेत् अत्र इदं जगत् न केवलं मनुष्याणां पशुपक्षिणाम् अपि इदं जगत् वर्तते इत्युक्ते अत्र काचित् भूमिः वर्तते तत्र मम मम पूर्वजाः ये आसन् तेषाम् इयं भूमिः आसीत् इति चिन्तयतु तदानीं तस्मिन्नेव परिवारे मम जन्म जाता इति कृत्वा मम अधिकारः तस्यां भूमौ वर्तते इति वयं वदामः परन्तु तस्यामेव भूमौ एकः वृक्षः अस्ति तस्मिन् वृक्षे पशुपक्षिणः सन्ति तेषां तादृश प अपि पूर्वजाः ये आसन् ते अपि तत्रैव वसन्तः स्मः बहुकालात् तदानीम् इदानीम् इदानीन्तनकाले ये पशवः पक्षिणः तस्मिन् वृक्षे वसन्ति तेषामपि अधिकारः वर्तते खलु यतोहि यथा मम अधिकारः अस्ति तस्यां भूमौ तथैव तादृशपशुपक्षीणामपि तस्यां भूमौ अधिकारः वर्तते इति तस्या तस्यां भूमौ तादृशपक् पशुपक्षीणाम् अधिकारः नास्ति इति वक्तुं न शक्नु शक्नुमः यतोहि इयं भूमिः तु परमपुरुषेण दत्ता वर्तते यथा मम अधिकारः तथैव पशुपक्षिणः अधिकारः अतः तत्र केवलं खादनार्थं पशुपक्षिणः हननम् अहं करोमि तत् सम्यक् इति वक्तुं न शक्नुमः तादृश वे, तादृशविचारः समीचीनः नास्ति तर्हि इति तादृशविचारः सम्यक् नास्ति इत्युक्तम् तर्हि इदानीं तत् तत्र तर्हि कथं भवेत् अस्माकं नियन्त्रणं भोजनस्य विषये नियन्त्रणं कथं भवेत् यदि नियन्त्रणं नास्ति तदानीं तत्र सम्पूर्ण पशुपक्षिणः वर्गः एव नष्टः भविष्यति अतः नियन्त्रणस्य आवश्यकता अस्ति नियन्त्रणार्थं भोजने नियन्त्रणार्थम् एव अत्र भोजनस्य वर्गाः सन्ति सात्विकाहारः ता राजसिकाहारः तामसिकाहारः इति विचारः जातः इति विचारः अस्माभिः करणीयः अनेन एतादृशविचारेण पशुपक्षिणः जीवनं जीवनस्य त्यागः न भवति तेषां रक्षा भवति तर्हि अत्र आहारस्य त्रिविधप्रभेदाः सन्ति सात्विकाहारः राजसिकाहारः तामसिकाहारः इति वयं जानीमः सात्विकाहारः एव बहु उचिताहारः वर्तते सात्विकाहारः उचिताहारः तस्मिन् मांसाहारः नास्ति अपि च तत्र किं किं नास्ति इति वयं जानीमः सात्विकाहारस्य प्रैमर्लि होल् हो होल् फुड् प्लाण्ट् बेस्ड् डायेट् तत्र किं डेरि प्रोडक्ट्स् न भवति तैल तैल तैलः तैलं न एवं रीत्या किं किं तस्मिन् अन्तर्भवति इति वयं जानीमः तर्हि सात्विकाहारः एव उचिताहारः उचिताहारः वर्तते अतः अत्र योगनिष्ठजीवने वयं किं वदामः इति चेत् पशोः पक्षिणः हिंसा कदापि वयं न कुर्मः यावज्जीवामः पशुपक्षिणः हिंसा या कदापि न कुर्मः अस्माकं कृते सस्यानि अन्नम् एतत् सर्वं लभ्यते तावत्पर्यन्तं पशुपक्षिणः हत्यां न परन्तु यदा तादृशकालः यदा आयाति अथवा आयास्यति यत्र भोजनार्थं फलम् अथवा शाकः एतत् सर्वं न लभ्यते अन्नम् एतत् सर्वं न लभ्यते तादृशकालः वर्तते किमपि न लभ्यते केवलं पशुः अस्ति तस्मिन् सन्दर्भे केवलम् अस्माकं जीवनस्य रक्षणार्थं तस्मिन् सन्दर्भे वयं खादितुं शक्नुमः परन्तु तावत्पर्यन्तं यावत्पर्यन्तं फलं फलानि शाकाः अथवा शाकानि एतत् सर्वं लभ्यन्ते तावत्पर्यन्तं तत्र पशोः पक्षिणः हननं वयं न कुर्मः इति तत्र पशुपक्षिणः विषये अस्ति माहिंसिः इति इदानीं तत्र अन्यस्य पुरुषस्य उपरि अन्यस्य पुरुषस्य हननं कदा कर्तुं शक्यते सामान्यतया अन्यस्य पुरुषस्य हननं वयं कर्तुं न शक्नुमः सामान्यतया न कर्तुं शक्नुमः परन्तु ये आत आततायिनः भवन्ति ये आततायिनः भवन्ति तेषां तु हननं वयं कर्तुं शक्नुमः स्वरक्षार्थं वा अन्यस्य पुरुषस्य रक्षार्थं वयम् आततायिनः हननं कर्तुं शक्नुमः तत्र आततायिनः हननं पीडनम् इति न भवति पीडनम् आततायिनः हननं पीडनं न भवति परन्तु आत्मरक्षा भवति आत्मरक्षा पीडनं न भवितुम् अर्हति तत्रापि नियन्त्रणस्य आवश्यकता अस्ति इत्युक्ते कश्चन पुरुषः वैरी अस्ति वा न अस्ति वा न वा इति कथं ज्ञातुं शक्नुमः अत्र नियन्त्रणं नास्ति चेत् तर्हि तत्र अहं स्वयमेव वक्तुं शक्नोमि अयं पुरुषः आततायी अस्ति इति कृत्वा तस्य हननं मया कृ मया, मया कृतं, इति वक्तुं शक्नोमि खलु परन्तु तथा नास्ति तर्हि आततायी इत्युक्ते कश्चन पुरुषः आततायी इति कथं ज्ञातुं शक्नुमः इति चेत् तत्र एकः मार्गः अस्ति क्षेत्रधारा अपहारी च शस्त्रधारी धनापहा अग्निद अग्निदगरदश्चैव षड् एते हि आततायिनः षड् आततायिनः सन्ति के क्षेत्रापहारी क्षेत्रं नाम फील्स् लेण्ड् वन्हु स्टील् युर् लेण्ड् क्षेत्रापहारि दारापहारि वन्हु स्टील्स् योर् वैफ् दारापहारि शस्त्रधारी यः शस्त्रं धरति शस्त्रं धृत्वा स्वस्य उपरि आक्रणम् आक्रमणं करोति धनापहा धनम् अपहरति यः धनं स्वस्य धनम् अपहरति सः आततायि अग्निदः स्वस्य यद् धनमस्ति तस्य तस्य नाशं करोति अग्निद्वारा अथवा स्वस्य कृते सः विषं ददाति गरदः अग्निदः क्षेत्र अपहारी दारापहारी शस्त्रधारी धनापहः अग्निदः गरदः इति एते षड् आततायिनः आततायिनां विरोधे यदा वयं युद्धं कुर्मः तस्मिन् युद्धे मृताः भवन्ति चेत् तदानीं तु तत्र हिंसा इति न वदामः तत्र तु आत्मरक्षा इति वदामः क्षेत्रधार अपहारी इत्युक्ते क्षेत्रं क्षेत्रं मम अस्माकं क्षेत्रं वर्तते तस्य तस्य किम् अन्यपुरुषः तद् बलेन स्वीकरोति तद् अपि सः भवति अततायि अथवा कस्यचित् पुरुषस्य पत्नी वर्तते पत्नीं तत्र स्वीकरोति पत्नीं स्वीकरोति बलेन सः अपि अततायि शस्त्रं धृत्वा अस्माकम् उपरि आक्रम आक्रम आक्रमणं कृत्वा अस्माकं हननं कर्तुमिच्छति सः अपि आतताई वर्तते अस्माकं धनम् अपहरति अस्माकं धनस्य चौर्यं करोति सः आतताई कश्चन पुरुषः अस्माकं गृहस्य अ… गृहस्य अग्नि अग्निद्वारा नाशं कर्तुमिच्छति सः अपि आततायि कश्चन पुरुषः अस्माकम् उपरि विषस्य प्रयोगं करोति सः अपि आततायि इति एते षड् आततायिनः सन्ति केवलम् एते एव अस्माकं वैरिणः सन्ति एतेषाम् उपरि युद्धं यदा वयं कुर्मः तदानीं हिंसा इति न वदामः अहिंसा इति एव अतः अत्र जीवने अहिंसा बहु मूल्य मूल्यविषयः वर्तते तत्र आ, तस्य पालनम् अस्माभिः सर्वैः अहिंसायाः पालनम् अस्माभिः करणीयं तत्रापि नियन्त्रणस्य आवश्यकता वर्तते भोजनस्य उपरि नियन्त्रणम् आवश्यकं व्यवहारे आचरणे नियन्त्रणम् आवश्यकं यदा वयं तत्र अन्यपुरुषः आततायि वा न वा इति निर्णयं कुर्मः तत्रापि नियन्त्रणस्य आवश्यकता वर्तते यः कोऽपि पुरुषः आततायि न भवितुम् अर्हति अस्माकं पुरतः कश्चन पुरुषः अस्ति चेत् तस्य उपरि अस्माकं शङ्का मा भवेत् पुरुषः असमीचीनः इति शङ्का कदापि न भवेत् सामान्यतया एवमेव अस्माकं व्यवहारः अस्ति लोके एतादृशशिक्षा अस्ति यद् अस्माकं पुरतः कश्चन अस्ति चेत् सः तस्य उपरि अस्माकं शङ्का भवति ओ अयं सम्यक् अस्ति वा न वा इति सर्वदा शङ्का भवति परन्तु सामान्यतया तथा व्यवहारः न भवेत् अस्माकं पुरतः यः पुरुषः अस्ति सः सम्यक् अस्ति समीचीनः पुरुषः एव इति अस्माकं चिन्तनं भवेत् चिन्तनं तथा भवेत् तदानीं तु सर्वे जनाः आततायिनः इति चिन्ता कदापि न भवति <गत> आततायिनः इत्युक्ते केवलं षड्जनाः ये जनाः मया उक्ताः ते एव आततायिनः अन्ये पुरुषाः सर्वे अपि समीचीनाः इत्येव अस्माकं व्यवहारः भवेत् अतः एव योगनिष्ठजीवने अहिंसायाः पालनस्य महत्त्वं वर्तते यमनियमस्य पालनस्य यमनियमयोः पालनस्य महत्त्वं वर्तते अतः एव योगनिष्ठजीवने यमः के के यमाः सन्ति के के नियमाः सन्ति इति सम्यक्तया ये एते विषयाः उक्ताः अस्य विषये वयम् अग्रे अध्ययनं कुर्मः यमाः के के नियमाः इति अतः अत्र अतः एव अस्माकं पूर्वजाः ये ऋषयः आसन ते उक्तवन्तः मा हिंसीः इति हिंसा न करणीया इति उक्तवन्तः तर्हि अन्ततो गत्वा अत्र मनुष्यजीवनं कथं भवेत् इति चेत् अत्र संयमः भवेत् मनुष्यजीवने संयमः भवेत् प्रत्येकस्मिन् क्षेत्रे संयमः भवेत् भोजने वा व्यवहारे वा सामाजिकस्तरे वा मानसिकस्तरे वा सर्वस्मिन् क्षेत्रे आध्यात्मिकस्तरे वा जीवने लक्ष्यं न नियन्त्रणं बहु मुख्यं वर्तते नियन्त्रणनियन्त्रितजीवनं नियन्त्रितं जीवनं बहु आवश्यकं वर्तते इति उक्त्वा अत्र किमपि वक्तुमिच्छन्ति वा अवगतं वा आं भगव समीचीनम् अस्तु तर्हि इदानीं किञ्चित् अग्रे अस्माकं करपत्रे अस्माकम् अस्मिन् जगति मम सम्बन्धः कः जगता सह मम सम्बन्धः कः परमपुरुषेन सह मम सम्बन्धः कः इति अत्र विषयः प्रवर्तमानः अस्ति तत्र अस्माभिः दृष्टं यत् मनुष्याणां मनः वर्तते मनसि त्रयः अंशः वर्तते मनसि अहमस्मि इति भावः वर्तते अनेन भावेन अहं पृथक् अस्मि अहं रामः अहं श्यामः अहं गोविन्दः इति एतादृशभावः आयाति एतादृशभावः एव कारणम् अस्ति परमपुरुषात् पार्थक्य पार्थक्यार्थम् यावत्पर्यन्तम् अहं पृथक् अस्मि इति भावः वर्तते तावत्पर्यन्तम् अहं पृथक् एव भवामि तावत्पर्यन्तं मम पुनर्जन्म अपि भवति यदा वयं वदा यदा वयं चिन्तयामः अस्माकं मनसि यत् अहं पृथक् नास्मि मम अहम् अस्मि इति भावः नास्ति पृथक् अस्तित्वं नास्ति तदा किं भवति जीवः शिवेन ऐक्यं प्राप्नोति यदा वयं जीवे लोके वसामः तदानीं तु वयं सर्वदा कर्मतु तु कुर्मः एव कर्म तु कुर्मः एव कर्म विना जीवनं न भवति प्रत्येकस्मिन् क्षणे वयं कर्म कुर्मः तर्हि अस्माकं मनुष्यजीवने यदा अस्माकम् अन्तश्चक्षुः उद्घाटितः भवति उद्घाटितं भवति तदानीं तत्र किं भवति इति चेत् तदानीं वयम् अवगच्छामः अहं वन्दने अस्मि इति बोधः भवति अहं वन्दने अस्मि इति बोधः भवति वन्दने अस्मि इति बोधः भवति तदानीं तत्र मोक्ष मो मुक्ति आकाङ्क्षया भवति यदा मुक्तेः आकाङ्क्षा भवति तदानीं सद्गुरुप्राप्तिः भवति तदानीम् अग्रगतिः भवति अग्रगतिः भवति तर्हि इदानीम् अस्माभिः यत्किमपि क्रियते तस्य तु कर्मफलं भवति प्रत्येकं कर्मणः कर्मफलं तु भवति एव तर्हि तत्र यदा वयं कर्म कुर्मः तदानीं मनसः यः मनसः या आकृतिः अस्ति तस्याः परिवर्तनं भवति तर्हि कर्मफलद्वारा मनसः आकृतेः पुनस्थापनम् एव तत्र कर्मफलम् इति वयं वदामः यथा एकः एक, एक कन्दुकः वर्तते तस्य यदा वयं तत्र किञ्चित् प्रेजर् दद्मः तदानीं तत्र तत्र अस्माकम् अङ्गुल्या प्रेजर् दद्मः चेत् कन्दुकं कन्दुकः कन्दुकस्य उपरि कश्चन परिवर्तनं भवति आकारस्य परिवर्तनं भवति तर्हि पुनः किञ्चित् उपरि आगच्छति तत्र यद् परिवर्तनं जातमासीत् तस्य पुनः स्थितिस्थापकः भवति एवमेव अस्माकं मनः अपि कार्यं करोति यत्किमपि वयं कुर्मः सम्यक् कर्म भवतु असमीचीनकर्म वा भवतु मनसः परिवर्तनं भवति तदनन्तरं तत्र कर्मफलद्वारा पुनः पूर्वं या आकृतिः आसीत् तादृश आकृतिं प्राप्नोति इति एव अत्र विषयः इति वयं जानीमः तर्हि प्रत्येकं कर्मणः तु कर्मफलं भवति एव कर्मफलस्य भोगः मनुष्यैः करणीयः एव यतोहि कर्म तु मनुष्येन कृतम् अस्माकं मनसा अस्माभिः कर्म कृतम् तर्हि तत्र जीवात्मा यः वर्तते सः तु केवलं साक्षिसत्ता वर्तते के सः केवलं पश्यति यत्किमपि वयं कुर्मः तत्र साक्षीरूपेण सः पश्यति तर्हि यत् कर्म कृतं तस्य प्रतिक्रिया मनसा अनुभूयते एव अस्मिन् जन्मने एव भवतु अग्रिमजन्मने वा भवतु तर्हि अस्माभिः एवमपि चर्चितं यदि अस्माकं लक्ष्यं तु मुक्तिः अथवा मोक्षः इति चेत् किमर्थं वयम् एकस्मिन्नेव शरीरे किमर्थं वयं न भवितुम् अर्हामः अस्माकं मुक्तिपर्यन्तम् एकमेव शरीरं भवतु अत्रैव लोके वसामः एकेन शरीरेण तत्र प्रयासं कृत्वा कृत्वा कृत्वा बहुकालानन्तरं बहुवर्षानन्तरं यदा मुक्ति भवति तदानीम् अनेन शरीर अनेन शरीरेण एव अनेन अनया अनेन मनसा एव मुक्तिः भवतु मोक्षः भवतु इति प्रश्नः भवितुम् अर्हति तदानीम् अस्मा अस्माभिः इति चेत् अस्मिन् शरीरे अन्ये अपि जीवाः सन्ति अन्ये कोशाः सन्ति यदि एकमेव शरीरं भवति तदानीम् एतादृशकोशानाम् अग्रगतिः कदापि न भवति यदा यदा शरीरस्य हननं भवति तदानीम् अस्माकं शरीरे यानि पञ्चभूतानि सन्ति तेषां मूलभूतेषु मेलनं भवति यदा मेलनं भवति तदानीं तेषाम् अग्रगतिः भवति तादृशजन्तूनां अन्यभूतानाम् अग्रगतिः न यदा अस्माकम् एकमेव शरीरं भवति तादृश जन्तूनां भूतानाम् अग्रगति अग्रगतिः भवतु इति धिया अत्र अस्माकं प्रकृत्या एतादृशनियन नियमनं कृतं यद् एक एकेन शरीरेण किञ्चित् काल कालपर्यन्तम् एव वयम् अस्मिन् जगति भवितुम् तस्मात् अनन्तरं तादृशकालानन्तरं यदा अस्माकं शरीरं क्षीणं भवति तदानीं मृत्युः आयाति तत्र अन्तिमकाले यद् यानि कर्मफलानि सन्ति तेषां भोगः अग्रिमजन्मनि अस्माकं भवति इति तादृशनियमः वर्तते तावत्पर्यन्तम् अस्माभिः प्राप्तमासीत् इदानीं किञ्चित् अग्रे गच्छामः सरिता भगिनी अग्रे पठति वा मया शेर् एतद् एव प्रकृतेः इच्छा अस्यां स्पष्टौ भूमचैतन्यं निदर्शरूपेण एवम् अग्रे गच्छति यदिकल्पनाः नियमः वर्तते सः नियमः अनुसरणीयः मानवशरीरे परिवर्तनम् अनिवार्यम् एतत् परिवर्तनम् आनेतुं मृत्युः आवश्यकः यावत् जीवात्मा परमपुरुषे विधीनः न भवति तावत् सः एकस्मिन् शरीरे स्वस्य आश्रयं स्वीकृत्य निरन्तरं भवितुं शक्नोति इति कल्पनायाम् एकं शरी, शरीरं कोटिवर्षपर्यन्तं सम्मुख सम्मुखीभवामः यतः क्रियाणां प्रतिक्रियाणां च शृङ्खला जीवात्मानां तस्मात् पूर्वं भोक्तुं न शक्नोति एतेन शरीरे कोटिवर्गपर्यन्तम् अथवा यतः क्रियाणां प्रतिक्रियां च शृङ्खला तत् प्रकृतेः नियमानां सृष्टेः प्रतिरूपं च अनुसर्तुं न शक्नोति प्रकृतिस्वभावानुसारेण सृष्ट्या सूक्ष्मात् स्थूलपर्यन्तं गन्तव्यं भवति कालान्तरेण मनुष्येण अपि स्वशरीरस्य परित्यागः अनिवार्यतया कर्तव्या भवति एतेन अपि ज्ञायते यत् मानवशरीरम् असङ्ख्यकैः पञ्चमूलभूतैः सृष्टेः विभिन्नपदेषु निर्मितं भवति सृष्टेः प्रतिमानानुसारं प्रकृतिनियमानुसारं च एतानि पञ्चभूतानि असङ्ख्याकानां पूर्ण प्रतिबिंबिता जीवात्मा जीवात्मे विकसीता जीवात्मख्य मनवशरी आश्रयूपेण अच्छे इच्छा एवं वर्त है सर्वेषां कृते विकासः भवति इति एव प्रकृतेः नियमः भवति सूक्ष्मे सूक्ष्मूलपर्यन्तं गन्तव्यम् इति शक्तेः नियमः अस्ति तत्र परिवर्तनम् आवश्यकं भवति एकं प्राणि एकः शरीरः धार्यते तदा तस्य मृत्यु भवति तदा सा पञ्चभूतैः पञ्चभूते विलीनं भवति तदा अन्यं शरीरं प्राप्नोति एवमेव सृष्टेः प्रक्रिया भवति तत्र यदि कोऽपि एकमेक एक एव शरीरं स्वीकृत्य सदा जीवती तदा तो पिवर्तन न मानव शरीरे भंग कॉपी विसा नवशे अभी बहुत जीवा त्र वसा तेज कभी कि विसा ते एकमेव शरीरे वसंती चेत ते तेषां विकासः न भवति यदा अस्माकं मृत्युः भवति तदा तेषां कृते अपि मुक्ति भवति ते अपि अन्यशरीरं गृहीत्वा तेषामपि विकासः भवति अन्य आम, आमां समीक्षणं समीक्षणं सम्यक् समी समीशीनम् इति एव अस्ति इत्युक्ते धन्यवादः भगिनि इदानीं तत्र अत्र मुख्यविषयः कः इति चेत् अस्माकं मनुष्यशरीरं वर्तते तस्मिन् शरीरे एकं मनः वर्तते एकः डामिनेण्ट् मैण्ड् इति वक्तुं शक्नुमः प्रधानरीत्या एक एकं मन मनः वर्तते तद्मनः तु अज्ञाचक्रे वर्तते आज्ञाचक्रे वर्तते तद्मनः एव सम्पूर्णमानव अस्तित्व अस्तित्वस्य नियन्त्रणं करोति तद्मनः एव निर्णयं करोति इदानीम् अहं किं करोमि इदानीं मम हस्तं चालयामि इदानीम् अहम् अहम् अग्रे गच्छामि इदानीम् अहं पुस्तकं पठामि इति एवं रीत्या तद्मनः एव सम्पूर्णशरीरस्य नियन्त्रणं करोति तादृशमनः तु अज्ञाचक्रे वर्तते तदेव प्रधानमनः इति वक्तुं शक्नुमः तर्हि सम्पूर्णशरीरं तादृशमनसः इच्छानुगुणं कार्यं करोति परन्तु अत्र विषयः कः इति चेत् अस्मिन् शरीरे न केवलं न केवलं तद् मनः वर्तते परन्तु अस्मिन् शरीरे अन्ये अपि जीवाः वर्तन्ते असङ्ख्यकाः जीवाः अस्मिन् शरीरे वर्तन्ते अस्मिन् शरीरे केवलं वयमेव न वसामः केवलं वयं न वसामः परन्तु इत्युक्ते तत्र प्रधानजीवात्मा इति यः जीवात्मा प्रधानमनसा सह संलग्नः वर्तते केवलं तद् नास्ति परन्तु अस्मिन् शरीरे तु असङ्ख्यकाः जीवाः वर्तन्ते यस्य जीवात्मा अपि वर्तते यस्य मनः अपि वर्तते तर्हि अत्र अस्माकं त्वक् या अस्ति तस्यां त्वचि तत्र बहवः कोशाः सन्ति देर् आर् मेनि सेल् स्किन् विचैल् द बाडि आल् द सेल्स् आफ् दिवर् आफ् द हार्ट् किड्नी इण्टेस्टैन् So, all those cells, each and every cell has its own mind in, and its own Jeevatma. Pratyekam, Koshasya, Manaha api vartate, Jeevatma api vartate. Asmin, Shariwe, Asankyakaaha, Jeevaaha, Santi, Yashya, Jeevatma api vartate, Manaha api vartate. Sarhi, Atra, Ye, Koshaha, Santi. Sarhi, Atra, Ye, Koshaha, Santi. तेषां सर्वेषामपि स्वस्य मनः जीवात्मा अपि वर्तते ते अपि अस्मिन् सृष्टिचक्रे यात्रिणः सन्ति दे आर् आल्सो ट्रावेलर्स् इन् दिस् सृष्टिचक्र यथा वयं ट्रावेलर् यथा वयं दशवादने स्मः ततः अग्रे अस्माकं यात्रा वर्तते एवं रीत्या अस्माकं शरीरे अन्ये जीवाः सन्ति तेषामपि यात्रा वर्तते तर्हि अत्र मनुष्यशरीरं वयं पश्यामः चेत् अत्र प्रधानतया जलमेव अस्ति खलु प्रधानतया जलमस्ति अथवा पार्थिव पार्थिवशरीरमिति वयं वदामः पृथ्वी क्षितितत्त्वं वर्तते जलमपि वर्तते तर्हि अस्माकं शरीरं सृष्टिचक्रे एकः यात्री वर्तते तर्हि यदा यदा अस्माकं मरणं जायते अस्माकं शरीरस्य मरणं जायते तदानीम् अस्माकं शरीरे यद् जलमस्ति तत् जलं तस्य अग्रगतिः भवितुम् अर्हति तज्जलं मूलभूतजलेन सः मिश्रितं भवति ततः अग्रे जलं पृथ्वीरूपेण परिवर्तनं भवति तर्हि तादृश अवसरः लभ्यते यदा अस्माकं शरीरस्य मरणं जायते यदि अस्मिन् शरीरे एव अस्माकं वासः अस्ति बहुकालकालपर्यन्तं मुक्तिपर्यन्तं तर्हि अस्माकं शरीरे ये जीवा अन्ये जीवाः सन्ति तेषां का गतिः तेषाम् अवसरः न लभ्यते अग्रगतिं प्राप्तुं सृष्टिचक्रे अग्रगतिं प्राप्तुं तेषाम् अवसरः न लभ्यते इति कृत्वा मरणं मरणम् अनिवार्यम् यदा मरणं भवति तदानीम् अस्माकं शरीरे ये अन्ये जीवाः सन्ति तेषामपि मरणं जायते यदा मरणं जायते तेषाम् अवसरः लभ्यते अग्रगतिं प्राप्तुं तेषां परिवर्तनं जायते यदा ते क्षितितत्त्वे सन्ति चेत् तदानीं ते जीवाः भवितुम् अर्हति पशुः पक्षिणः इत्येवं रीत्या तेषां परिवर्तनं भवितुम् अर्हति यदि ते आकाशीयभूतं वर्तते चेत् तदानीम् आकाशीय आकाशीयभूतेन सह तेषां मेलनं भवति तदानीं तेषाम् अग्रगतिः वायुरूपेण भवितुम् अर्हति यदि वायुरूपेण शरीरे आसीत् तर्हि अग्रगतिं प्राप्तुं शक्नुमः अग्निरूपेण अग्रगतिं प्राप्तुं शक्नुमः इति एवं रीत्या अस्माकं शरीरे ये जीवाः सन्ति तेषाम् अग्रगतिः भवितुं अर्हति इति कृत्वा तेषाम् अग्रगतिः तेषामपि मरणं यदा भवति तेषां तदानीं तत्र नूतनशरीरं तेषां लभ्यते तेषामपि अग्रगतिः प्राप्तुं सङ्घर्षः भवति इति कृत्वा अस्माकं मनुष्यशरीरस्य मरणम् आवश्यकं मनुष्यशरीरे ये पञ्चभूतानि सन्ति तेषाम् अपि अग्रगतिः भवति यदा अस्माकं शरीरं म्रियते यदा अस्माकं शरीरं मरणं प्राप्नोति Hmm? अतः अस्माकं शरीरं केवलम् अस्माकं वासः नास्ति परन्तु असङ्ख्यकानां जीवानां वासः अस्ति अत्र अत्र ये ये लघुजीवाः सन्ति तेषामपि अवसरः भवति अग्रगति अग्रगतिं प्राप्तुम् इति इति अत्र विषयः अस्ति स्पष्टता अस्ति वा कोपि प्रश्नः अस्ति वा भगिनि उक्तवती आ, ये Uh, cells of the skin, liver, heart, they are there. They are also separate, but uh, we see the group of cells makes the tissue, tissue makes organ, and like a uh, group of tissues will make an organ. So that all belongs to the, this uh, Jeeva Atma, that um, charitam that we have, isn't it? it no. It, in, in, in that also, there is a, life. is there a life in that or not? I uh mean, -huh. Jeeva has to be one of them. but that is that's not a separate entity of theirs it's it's running through the main uh, prana bhavatu tatapi tasmin jeevah astiva nava prana astiva nava yasmim prana asti tatvu jeevah astikalu panch pranaha samti vana va koshe ya kintu that bhavatu, that's separate prana na stitesha na prana astikalu itite you you can bring it under a microscope and see if it is alive or not right yeah tarhi tasya pranaah vartate pranaah vartate cet tarhi saha jeevah asti jeevah asti jeevah asti cet manah asti manah asti cet tatra jeeva adhiatma api asti tadartameva tatra srishti chakre asma bhi kimuktam prathamataya yada hold on separate existence अस्तित्वं नास्ति चेदपि अस्तित्वं तु अस्ति अस्तित्वं तु अस्ति अस्तित्वं तु अस्ति सः अपि जीवः एव यदा अस्माकं मरणं जायते तेषामपि मरणं जायते तदानीं तेषाम् अग्रगतिः भवितुम् अर्हति इति विषयः पृथक् अस्तित्वम् अस्ति वा न वा इति भिन्नवार्ता परन्तु सः अपि जीवः वा न वा इति प्रश्नः जीवः वा न वा इत्युक्ते तदर्थमेव अस्माभिः उक्तं सृष्टिचक्रे प्रथमतया स्थितितत्त्वात् एककोषकः जीवः आयाति इति उक्तं खलु सिङ्गल् सेल् आर्गनिजम् कम् विर्गनिजम् इट् बिकम्स् बै बै डिविशन् मल्टिपल् सेल्मेशन् आफ़् दीटर्स् एम्ब्रियो Yeah. From one cell, it became all the multiple cell or cellular organs. Yeah, but each cell has a life. Each cell has a life. Whether, whether by sayogaha, tesham, vardhanam, jatam, iti bhavatu, tadaniyam api pratyekasmin api jivaha vartate, pratyekasmin manaha vartate. Iti eva atra vicharaha. Absolutely. Hmm? Hmm? इति आश्चर्यरूपेण अस्ति परन्तु वास्तवमस्ति वास्तविकमस्ति अस्तु अस्तु भगिनि किञ्चित् अग्रे पठामः वा अग्रे पठतु भवति अतः मृत्यु अनिवार्यः अस्ति सर्वैः एतत् भौतिकं शरीरं त्यक्लं भवति मृत्युः केवलं जीवात्मनः मनसः च शरीरात् विच्छेद इति अर्थः मनः प्रकृतेः सृष्टिः इति कारणात् मनः जीवात्मना सह सर्वदा तिष्ठति मनुष्याणां पृथक् भाव अथवा अस्तित्वविचारः तेषाम् अहम् इति भावे भवति अहम् इति भावः मनसः भागय सर्वदा मनसा सह एव तिष्ठति मृत्युः केवलं शरीरात् मनसः विच्छेदः एव न मनसः मृत्युः इति अस्माभिः पूर्वं दृष्टम् अतः मनुष्यस्य पृथक् भावः अहमति भाव च न मियते अयम अहमती भाव जीवात्मना सह अग्रे गकृते प्रभाव मनस निर्वाह बोति ये प्रकृति जीवात्म उपरी सी प्रभाव विरमती मनस अस्तिव निर्वाहिम असमर्थ तस् क्षण अयम अहमती भाव अभी निवृत्त होती मनुष्याण पृथक भाव तहमती नव मुक्ति अस्त इध यहां पूर्व दृष्टि भौतिक शरीर से मृत्युवती न कव एक शरीर वह चिंतमी मया एकशरीरम् अस्ति इति नास्ति बहवः जीवात्मनः अस्माकं शरीरं जीवन्ति अपि अपि पृथक् पृथक् मनः स्थितिः अस्ति यदि भौतिकशरीरस्य मृत्युः भवति तेषां ये जीवाः सन्ति तेषामपि मृत्युः भवति यदि मृत्युः भवति तद् तदानीं किं भवति यत् मनः अस्ति यद् मनः वयं सूक्ष्मशरीरं वदामः सः जीवात्मना सह तिष्ठति भौतिकशरीरात् पृथक् भवति यदि भौतिकशरीरात् पृथक् भवति तदानीं तत्र यत् यत् अहं भाव मनुष्ये अस्ति तत् भौतिकशरीरे सामान्यतः अहं शरीरे एव अहं भावयामः किन्तु वस्तुतः इति मनः अपि वयं भावयामः इति अहम् अस्मि इति भावः अस्ति तत् तत कदा तस्य विच्छेदः कदा भवति जीवात्मना सः कदा विच्छेदः भवति अहं यत् भावः अस्ति मनस्य तत् भवति यदि प्र, प्रकृतेः प्रभाव शनैः शनैः गच्छति अपगच्छति न केवलं भौतिकशरीरात् किन्तु यत् सूक्ष्मशरीरम् अस्ति मनः यत् वयं जानीमः महत्त्वम् महत्तम् पृथक्ता भवति आगच्छति अपि तत् कुत्र भवति प्रकृति तेषां करोति तस्मात् मुक्तिः भवति तस्य मा, मानवस्य मान अपि ये अन्यजीवा सन्ति तेषामपि मुक्तिः आगच्छति तत्र इति अस्ति तु अहं भावस्य इति यदि मम जीवने एव तस्य अहं भाव अहं भाव भावनातः मुक्तः भवामः भौतिकशरीरस्य मृत्युनन्तरं मुक्तः भवाम इति अत्र न दत्तमस्ति किन्तु तत्र अपि भवतुं शक्नोति भवत जीवन्मुक्तिः वा विधेयमुक्तिः इति अत्र अस्ति यत् अहं भावः गच्छ अपगच्छति तत् तानि मुक्तिः भवति इति दत्तमस्ति तत्र जीव, जीवन्मुक्तिः विधेयमुक्तिः इति तु तत् वेदान्ते अस्ति अत्र अत्र योगे तादृशविचारः नास्ति भगिनि अस्तु हा तर्हि अत्र इति कृ इति इतिक्र, कृत्वा अस्मिन् परिचये किम् उक्तमिति चेत् मृत्युः मरणं तु अनिवार्यम् अस्ति मरणम् अनिवार्यम् अस्ति अपि च अस्माभिः दृष्टं किमर्थम् अनिवार्यम् इति यतोहि अस्मिन् अस्मिन् शरीरे ये जीवाः सन्ति तेषामपि अग्रगतिः भवतु अग्रगतेः अवसरः भवतु इति कृत्वा मरणं आवश्यकमस्ति mm -hmm. तेन सर्वेषां सृष्टिचक्रे अग्रगतिः भवति अतः प्रत्येकं शरीरं क्षीणतां प्राप्नोति यदा शरीरं म्रियते तदानीं मनः मरणं न प्राप्नोति तत्र शरीरात् केवलं प्राणाः अपगच्छन्ति तदानीं शरीरं मरणं मरणावस्थां प्राप्नोति तत्र म यः मनः यद् मनः वर्तते तत्तु जीवात्मना सह संलग्नं वर्तते तर्हि तस्य मनसः अपि च जीवात्मनः मरणं न जायते मनः अपि च जीवात्मा मिलित्वा शरीरात् बहिः द्वयमपि तिष्ठति यावत्पर्यन्तं मुक्तिमोक्षः न भवति तावत्पर्यन्तं तत्र पुनर्जन्म भवति यदा यदा तत्र प्रकृतेः बन्धनात् मुक्तिः लभ्यते यदा पृथक् अस्तित्वं नास्ति तदानीं मुक्तिः भवति इदानीं तत्र योगद्वारा समाधिः यदा सविकल्पसमाधिः निर्विकल्पसमाधिः इति अस्ति सविकल्प समाधौ तत्र जीवस्य यद् मनः वर्तते तस्य भूममनसा सह ऐक्यं भवति योगद्वारा साधनद्वारा तदानीं मुक्तिः स्वविकल्पसमाधिः इति वयं यदा तत्र साधनाद्वारा मन मनः विलीनं भवति परमात्मनि तदानीं मनः मनः न तिष्ठति समाधौ यदा मनः न तिष्ठति तदानीं जीवात्मा परमात्मना सह ऐक्यं प्राप्नोति तदानीं तत्र निर्विकल्पसमाधिः इति वदामः तत्तु समाधौ परन्तु यदा समाधितः बहिः आगच्छति अपि च मरण मरणकाले यदा मरणं जायते तदानीं तस्मिन् क्षणे मरणवस्थायां यदा मनः स्वस्य मनः भूममनसः सः ऐक्यं प्राप्नोति तदानीं मुक्तिः इति वयं वदामः अपि च मरण मरणसमये यदा अस्माकं मनः विलीनं भवति परमात्मनि अपि च जीवात्मा परमात्मनि ऐक्यं प्राप्नोति तदानीं वयं मोक्षः इति वयं वदामः तस्याम् अवस्थायां पुनर्जन्म न भवति अपि बहु उच्चविषयः अस्ति मोक्षः अपि उच्चविषयः अस्ति मुक्तिः अस्ति चेत् वा मोक्षः अस्ति चेत् उभयत्र पुनर्जन्म न भवति मुक्तिः अस्ति चेत् किं भवति इति चेत् अस्माकं मनः भूममनसा सह ऐक्यं भवति भूममनसा सह यदा ऐक्यं भवति तदानीं दा पुनः सृष्टिचक्रे आयाति पुनः सृष्टिचक्रे दट् uh, दट् कास्मिक् मैण्ड् सम् दट् कास्मिक् मैण्ड् सृष्टि विल् अगेन् फार्म् सृष्टि सृष्टेः निर्माणं पुनः जायते यतोहि भूममनसा सह एव पञ्चभूतानि निर्मितानि भवन्ति परन्तु परन्तु तत्र जीवात्मा अस्ति तस्य जीवात्मनः तु मुक्तिः जाता परन्तु यः यद् मनः वर्तते तस्य भूममनसा सह ऐक्यं तर्हि पुनः सृष्टिचक्रे रीसैकल् भवति परन्तु यदा मोक्षः भवति तदानीं किं भवति इति चेत् मनः एव विलीनं भवति परमात्मनि जस्ट् लैक् like द यथा लवणं जले मिश्रितं भवति पुनः तस्य पृथक् अस्तित्वं नास्ति तथैव मनः परमात्मनि विलीनं भवति तदानीं जीवात्मा परमात्मना सह ऐक्यं प्राप्नोति तदानीं मोक्षः इति वयं वदामः अत्र तु विदेहमुक्तिः जीवन्मुक्तिः इति एतादृशविचारः नास्ति अस्तु तर्हि किञ्चित् अग्रे गच्छामः सरिता भगिनि मनसा सह कश्चन कार्यं कृत्वा प्रतिक्रियायाः कर्मफलानि अपि मनसा एव अनुभव अनुभवति मनः एव दशावय दशावयव नाम दश अवयव दश अवयव दशानामयवानां इन्द्रियाणां साहाय्येन मानसिककर्म शारीरिकक्रियायां परिवर्तयति मनः एव प्रतिक्रियायाः कर्मफलानि सुखरूपेण वा दुःखरूपेण वा अनुभवति मृत्युः भौतिकशरीरस्य मृत्युं मृत्युं सूचयति मनः तु केवलं शरीरं त्यजति मनः यत् सर्वाणि कर्माणि कृत्वा तेषां परिणामं वहति ततः मनः जीवति मृत्युक्षणपर्यन्तं कर्माणां प्रतिक्रियायाः अनुभोक्तुं का सत्ता कर्मविपाकम् अनुभवेत इति प्रश्नः न जायते मनः एव सा तत्ता या कार्यं करोति सा तत्ता न म्रियते तत अतः तया एव प्रतिक्रियायाः कर्मफलानि अनुभोक्तव्याः भवन्ति पि दृष्टवन्तः मनसः वयं किमपि कुर्म कर्म कुर्मः तदा तस्य फलं भवति एव अपि च तस् तस्य फलस्य अनुभूति मनसा एव अनु एव भवति वने मनसः परिवर्तनं भवति तदा पुनः पुनः स्वस्य स्थितिं प्राप्नोति ख दुखम वृत्यु यदा तदा भौतिक शरीर से मृत्युवन तरीर त्यजती कर्मा व्य क्या तेजा पिणा मन मन वहति यदा अन्द शरीर प्राप्न तदा पुनः तर्मा फलमी अव प्रक्रिया चलती यदा मुक्ति मुक्ति बवती तदा कर्मफल सब अन अने अने शरीर अभी कर्मफल से अनुभवं करोति अनुभूयते इति आमां समीचीनं भगिनी तर्हि अत्र मनः एव कर्ता अस्ति कार्यस्य कर्ता मनः एव शरीरं केवलं मनसा या आज्ञा दत्ता तस्य आज्ञा तस्याः या आज्ञायाः पालनमेव करोति शरीर शरीरम् यदि तत्र मनसा आज्ञा न दीयते तदानीं शरीरेण किमपि कृतं चेत् तस्य प्रति प्रतिक्रिया न भवति तस्य प्रतिफलं प्रति न भवति कर्मफलं न भवति यदा तत्र वयं ज्ञात्वा किमपि कार्यं कुर्मः मनसा किमपि कार्यं कुर्मः तदानीमपि तत्र कर्मफलं भवति इत्युक्ते शारीरिकरूपेण कर्म कुर्मः अथवा मनसा कर्म कुर्मः तदानीं तत्र प्रतिक्रिया भवति यतोहि मनः एव तत्र कर्ता भवति कर्तृ भवति मनः अतः यत्किमपि वयं कुर्मः तस्य तु प्रतिफलं प्रतिक्रिया तु भवति एव तस्य भोगः अस्माभिः अवश्यं करणीयं प्रतिक्रियायाः भोगः करणीयः तर्हि इदं मृत्युसमये किं भवति इति चेत् तत्र केन यदा मृत्युः जायते तदानीं कर्मफलानां भोगः केन अनुभोक्तव्यः इति चेत् तत्र मनस् मनः एव तादृशकर्मफलानां भोगम् अनुभवति मनः एव अनुभवति तर्हि तर्हि यदा यदा शरीरस्य मरणं जायते तदानीं मनः मनः जीवात्मना सह शरीरात् बहिः गच्छति तत्र मनसि अभुक्तप्रतिक्रियाः अपि भवन्ति अभुक्तकर्मफलानि अपि भवन्ति मनसि अबुक्तप्रतिक्रियाः प्रतिक्रियाः तर्हि तादृशप्रतिक्रियाद्वारा एव कर्मफलानि भवन्ति ता, तादृशकर्मफलानि अग्रिमजन्मनि तद्मनः अनुभवति अन्यस्मिन् शरीरे अनुभवति इति स्पष्टमस्ति इति मन्ये वाक्ये कालानन्तरं नूतनशरीरस्य अग निर्माणं भवति किं किं पुनः पृच्छतु यदा मनः भौतिकशरीरस्य मृत्युनन्तरं नं। मनः यत् जीवात्मा सः यत् अस्ति तत्र कियत् काल्यं पर्यन्तम् इति तिष्ठति कियत्काल्यनन्तरं नूतनशरीरं प्राप्नोति इति इत्युक्ते यावत्पर्यन्तं प्रकृति प्रकृति प्रकृतिः अस्य नियमनं करोति यावत्पर्यन्तम् उचितं शरीरं न लभ्यते अत्र कर्मफलस्य भोगार्थं तावत्पर्यन्तं तिष्ठति तावत्पर्यन्तं तिष्ठति प्रतीक्षां करोति किय कियान् कालः इति न वक्तुं शक्नोमि तत्तु प्रकृतिः प्रकृतिः सर्वत्र पश्यति कुत्र अस्ति तादृशशरीरं यत्र यत्र कर्मफलस्य भोगः भवितुम् अर्हति कुत्र अस्ति तादृश अवसरः इत्युक्ते तत्र सो मेनि पम्बिटेशन्स् अण्ड् काम्बिनेशन्स् खलु तत् सर्वं कुत्र पूरितं भवति यदा तादृश अवसरः लभ्यते तदानीं नूतनजन्म जायते झटिति अपि भवितुम् अर्हति अथवा बहुकालपर्यन्तं प्रतीक्षा अपि भवति न जाने न वक्तुं शक्नोमि कश्चन कार्यं प्रतिक्रिया कर्मफलानि अपि मनसा एव अनुभवति मनः एव दश इति कर्माणि कर्तुं कर्माणि कर्तुं मनसा कस्यचित् स्थूलधारस्य स्थूलाधारस्य स्थूलाधारस्य कर्माणि कर्तुं मनसा कस्यचित् स्थूलाधारस्य धारस्य हाय्यं ग्रहीतव्यं यतोहि मनः सूक्ष्म भवति स्थूलाधारः मानवशरीरस्य मस्तिष्कः अस्ति मस्तिष्कः इत, मस्तिष्क इति स्थूलाधारस्य साहाय्येन एव अस्माकं का मनः कार्यं कर्तुं समर्थः भवति मनः मस्तिष्कः मस्तिष्कः च अतीव निकटतया मस्तिष्कः मस्तिष्कः मनः मस्तिष्कः च अतीव निकटतया सम्बन्धे स्तः एकः अपरं विना मस्तिष्ट कहा, मस्तिष्ट कहा कार्यं कर्तुं नस्तिष्कस्य कार्यं निवर्तते एवमेव एव यदि मनसा आधार मस्तिष्कः सम्यक् कार्यं न करोति तर्हि मनः कार्यं कर्तुं न शक्नोति मृत्युपुर शरीर मस्तिष्क मस्तिष्क कार्य मस्तिष्क मृत अभी मन नारणेन तथा यदा काचन व्यक्ति अचेतना अथवा संज्ञा साहाये अचेतना क्रिय तदा तेर मस्तिष्क य्यक अन अभी कार्यम न कौ मनस भौ आधार मस्तिष्क कार्यम अयोग्य वर्त अचेतना अवस्था मृत्युदशा नतः नीवात्मा मन शरीर त्यजति अस्याम अवस्थाया मन शरीर से अंत कार्य न करोति कौती मस्तिष्क नारणेन कशन मनसा कि ज्ञा साम्यम न्य अस्त ये मन मस्तिष्क भौति भौतिकूपेण आश्रय स्वीकुआ येन मनः कार्यं कर्तुम् अपि च स्वकर्मणां प्रतिक्रियाणां कर्मफलानाम् अनुभोक्तुं शक्नोति इदानीं दत्तमस्ति मनः मस्तिष्कः तेषां कः सम्बन्धः अस्ति मस्तिष्कः भौतिकशरीरे अस्ति मस्तिष्के इति ब्रेन् भगिरे अस्तु मस्तिष्क मन तयोः सम्पर्कः अस्ति यदि मस्तिष्क समीचीनम् अस्ति मनः समीचीनं भवति मनः समीचीनं नास्ति मस्तिष्कसमीनं न ना भवति इति तेषां परस्परसम्बन्धः भवति यदि भौतिकशरीरस्य मृत्युः भवति तदा यतोहि शरीरे मस्तिष्कम् अस्ति किन्तु मनः अपगत् पूर्वमेव अपगच्छति शरीरस्य मृत्यु आदौ तु तत्र मनः नास्ति तर्हि मस्तिष्ककार्यं न करोति अपि मनः कार्यं न करो कर्तुं शक्नोति yeah. यदि अन्य अवस्था कदा भवति यदि शरीरस्य अचेतना अवस्था अस्ति यथा एनोस्थिसिया इति कानि अपि ड्रग्स् इन्फ्लुएन्स् अस्ति इति तेषां तेषां प्रभावः यदि अस्ति तद् मस्तिष्ककार्यं न करोति तत्र मनः अपि तिष्ठति तस्य कार्यमपि स्थगन् स्थगनं भवति यदि त्रि अस्ति याव यावत्पर्यन्तं पर्यन्तं मस्तिष्क चेतनावस्थायाम् अस्ति वा इति औषधा औषध औषधानां प्रभावे ग्रस्तः अस्ति तावत्पर्यन्तं मनः अपि किं कार्यं न कर्तुं शक्नोति इति यदिया वा इति औषधानां प्रभावः अपगच्छति तदानीं मस्तिष्ककार्यं करोति त मनः अपि पुनः कार्यं कर्तुं शक्नोति अनेन कारणेन मनसा स्वतः स्थूलशरीरस्य वा कोऽपि कार्यं कर्तुं का सामर्थ्यं नास्ति कः सामर्थ्यं नास्ति मनुष्य मनः मनः मनः भौतिकशरीरस्य द्वयोः परस्परः आवश्यक आवश्यकता अस्ति इति दत्तमस्ति समीचीनं भगिनी सम्यक् सम्यक् इति अस्ति तत्र मनः कथं कार्यं करोति चेत् इति चेत् अस्य तस्य आधारः अस्ति शरीरे आधारः अस्ति मस्तिष्कः आश्रयः अस्ति मस्तिष्कः तयोः मनः अपि च मस्तिष्कः तयोः गाढसम्बन्धः वर्तते एकः अपरेण विना कार्यं कर्तुं न शक्नोति चेत् तत्र मस्तिष्कः मनः विना कार्यं कर्तुं न शक्नोति मनः अपि मस्तिष्कं विना कार्यं कर्तुं न शक्नोति यः पुरुषः मृतः अस्ति तस्य तु मस्तिष्कः वर्तते परन्तु मनः नास्ति इति कृत्वा मस्तिष्कस्य कार्यं न यदा पुरुषः मूर्च्छावस्थां प्राप्नोति तदानीमपि तत्र मस्तिष्कः मनः कार्यं न करोति परन्तु मनः शरीरात् अपगतः इति नास्ति अपगतम् इति नास्ति अपि च यदा तत्र किम् अनस्तिष्य इति दद्मः तदानीमपि मस्तिष्कः कार्यं न करोति मनः अपि कार्यं न करोति परन्तु मनः तु शरीरे वर्तते एव शरीरात् बहिः नास्ति परन्तु यदा मरणं जायते तदानीं मनः तु शरीरात् बहिः गच्छति मस्तिष्कः कार्यं न करोति तर्हि यदा मनः शरीरात् बहिः गच्छति तदानीं मनसि कर्मफलानि भवन्ति यावत्पर्यन्तं तादृश मन तादृशमनसः नूतनशरीरं न लभ्यते यत्र पुनः मनसि आधाररूपेण न लभ्यते तावत्पर्यन्तं कर्मफलानां भोगः न भवितुमर्हति अतः यदा मनः शरीरात् बहिः गच्छति तदानीं कर्मफलस्य भोगः कदापि न भवितुम् अतः स्वर्गे गत्वा कर्मफलस्य भोगः अथवा नरके गत्वा कर्मफलस्य भोगः इति कदापि न भवितुम् अर्हति यावत्पर्यन्तं शरीरं न लभ्यते तावत्पर्यन्तं भोगः कर्मफलस्य भोगः न भवितुम् अर्हति इति विषयः अस्ति स्वर्गः नरकः इति तु नास्ति एव ओके okay, अस्तु अत्र स्थगनं कुर्मः कोऽपि संशयः अथवा प्रश्नः अस्ति चेत् धन्यवादः नमस्कारः नमस्कारः धन्यवादः नमस्कारः अन्य वक्तुमिच्छामि